अथर्ग्वेदे सप्तमाष्टके पञ्चमोऽध्यायः ओरोदिपो अन्धशुताय मातवे अपश्वानम्नसखाः यो दीर्घनि यो धारया पावकया परिप्रस्यन्दते सुतः इन्दुरः शो नकृत्याः तन्धुरोषमभीनरः सोमम् विश्वाच्या यज्ञम् हिन्वन्त्यद्रिभिः सुतासो मधुमत्तमाः सो वा इन्द्राय मन्दिनाः पवित्रवन्तो अक्षरम् देवान् गच्छन्तु भोमदाहाः इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् वाचस्पतिर्मखस्य ते ओजसा सहस्रधारः समुद्रो वा आचमे खयः सोमः पते रजीनाम् सखेन्द्रस्य दिवे दिवे अयम् भूषारजिर्भगः सोमम् पुरानो अर्षदि पतिर्विश्वस्य भोमनोऽव्यक्षद्रोदसे उभे समुप्रिया अनोषतका भोमदा आजघृष्पयः सोमा आस कृण्वते पसः पवमानास इन्दवः योऽजिष्ठस्तमाफलपवमानश्रवाय्यम् यः पञ्चदर्षणे अभिरयुञ्जे रमनामहै सोमा आपवन्त इन्दभोस्मभ्यम् गातुमित्तमाः द्वित्रा सुमाना अरेपसः स्वाध्यः स्वर्विदाः सुष्वाणा सोऽव्यद्रिभिश्चितानागोरधि त्वचे इषमस्मभ्यमभितः समस्वरन्व सुविदाः एते भूताभिपश्चितः सोमा आसोदभ्या सूर्यासो न दर्शदासो अधिकत्नवो अधुराधुरे प्रसुन्मानस्यान्धसोमर्थोऽ न कृततद्वचाः अपश्वानमराधसं हतापन्न भृगवः आजामिरत्के अव्यत भुजेन पुत्र ओण्योः स रज्जारो न योषणाम्बरो न योनिवासदम् स वीरोदक्षसाधनो भरोदसे हरिः पवित्रे ए अव्यतमेधानयोनिमासदम् अव्योवारे एभिः पवते सो भोगौ ये अधित्वते कलिक्रदद्पृषा हरिन्द्रस्याभ्ये एतिनिष्कृतम् प्राणाशिशुर्महीनाम् हिन्वन्नृतस्य निधितिम् विश्वापरिप्रिया भुभद सद्विता उपत्रितस्य पाश्योरभक्तयद्वुहापदम् यज्ञस्य सप्तधामभिरधप्रियम् त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम् नीते अस्य यो जनामि सुक्रतोः यज्ञानम् सप्त मातरो वेधामशासतश्रिये अयम् अस्य रते सजोषसो विश्वे देवासो अद्रुहाः स्पाला भवन्तिरन्तयो जुषन्तयत् मे गर्भमृतावृतो दृशे चारुमदे जनन् कविम्बम् हिष्ठमद्धरे पुरस्पृहम् समीचीने अभित्मनाः यक्ष्मे रतस्य मातराः तन्दानायज्ञमाः ऋषग्यदञ्जते कर्त्वाः शुक्लेऽभिरक्षभिरुणोरपौ रजन् दिवः हिन्वन् रथस्य वेदिम्प्राद्धरे प्रपुनानाय भेदो मायव चुद्यतम् हृन्हृद्युतो ओषते परिवाराण्यं व्यजागोभिरञ्जानो अर्षति त्रिशतस्था आपुनानः कृणुते हरिः परिकोशम् मधुश्चे अर्षति अभिवाणी ऋषीणाम् सप्तमो ओषरा भो अदा आभ्यः सोमः पुरानश्चम्बो अर्विशद्धरीः परिदैवीरनुस्वधा इन्द्रेण याहि सरथम् पुरानो वाघद्वाघद्भिरमर्त्यः परिसप्त्यर्नवा आचयुर्देवो देवेभ्यः सुतः जानशिः पवमानो विधा आवति सखा आय आनिशि एत पुरानाय प्रगा आयत शिशुन्नयज्ञैः परिभूषत श्रिये समे वत्सन्न मातृभिः सृजता आजय साधनम् देवाव्या अम्मदमभिद्विषपसम् उनाता आ दक्षसाधनै यथा शब्धा आय भीतजेः यथा आमित्राय वरुणाय संतमह अस्मभ्यम् तावसुमिदमभि वाणीरनोषत गोभिष्टे वर्णमभि वा आसयामसि स नो ओमदानाम् सखे एव सख्ये एगादुवित्तमो भव सने ने एमि कृध्या अस्मदा रक्षसङ्कञ्चिदत्रिणम् अपादे एवम् द्वयुवम्बो युजोधिनः तम्बः सखाजो मदाय पुनानमभिगायत शिशुन्न यज्ञैस्वदयन्त गूरुतिभिः संवत्स इव मातृभिरिन्दुर्हिन्मानो अज्यते देवा विर्मदो मतिभिः परिष्कृतः अयम् दक्षा आय साधनोऽयम् श्रद्धा आय भीतजे ए अयम् देवेभ्यो मधुमत्तमः सुतः भोपन्न इन्दो अश्ववत्सुतः सुदक्षधन्व सुचिन्ते वर्णमधि गोसुदीधरम् इन्दो अ सखे एपसख्ये नर्यो रुते भव सने ने एभित्तमस्मदाम्पदे एवम् साह्वा इन्दोपरिवाधो अपद्रयुम् इन्द्रवच्छसुता इमे वृषण्यन्तु हरयः सृष्टि जाता स इन्द्रवः सर्वविदाः अयम्भराय सा नसिरिन्द्रायरो सुयैत्रस्य चेतति यथाभिदे अस्येदिन्द्रो मदेष्वाग्राभङ्ग्रभेतसा नसिम् वज्रम् च वृषणम् भरत्समप्सुजित् थम् वासो भजागृभिरिन्द्रा आयेन्दोपरिस्रव द्युमन्तम् सुष्ममाभरा स्वर्विदम् इन्द्राजभृषणम् मदम् पवस्व विश्वदर्शतः सहस्रया मा पथिकृद्भिदक्षणः अस्मभ्यम् गातु वित्तमो देवेभ्यो मधुमत्तमः सहस्रञ याहि पथिभिः करिक्रदत् पवस्व देववेतय इन्दो धारा अभिरोचता आकलसम्मधुमान् सोमनःसदः तव द्रप्सा उद पुल इन्द्रम् मदायवावृधुः त्वाम् देवासो अमृतायकम् पपुः आनः आवतारयिम् वृष्टिरावोरीत्यापस्वर्विदाः सोमः पुनान ऊर्मिणाम् योपारम्भिधा अग्रे एवाचः पवमानः र्हिन्वन्दिवाजिनम् वने क्रीडन् अवत्यविम् अभृत्रिपृष्ठम् अत यः समस्वरन् असर्जि कलशाङ्गभिमीढे सत्यर्नवाजयोः पुराणो वाचम् नरयन्न शिष्यदत् पवते हर्यतो हरिरतिह्वरांसिरं ह्याः अभ्यर्ढन् स्तोतृभ्यो वीरवर्जाः अजापवस्वते वयनुमथोर्धाराः असृक्षत वित्रम् पर्येति विश्वसाः परीतोषिञ्जता सुतम् सोमोयमुत्तमम् हभिः अधन्वाङ्गो नर्यो अप्स्वा अन्तरा सुशापसो मम द्रिभिः भूनम् पुनानो विभिः परिश्रवादब्धः सुरविन्दरः सुते चित्पाप् सुमदा गो अन्धसा श्रीणन्तो गोभिरुत्तरम् परिशुवानश्चक्षसे देवमादनः पुरानः सो ओमधारयापोऽवसा नो अर्षसि आरत्नथा यो निमृतस्य देवहिरण्ड्ययाः दुहान ओधर्दिव्यम् मधुप्रियम् रत्नम् सतस्थमासदत् आपृच्छ्यम् तरुणम् वाज्यर्षतिर्भिर्धूतोऽपि चक्षणः पुरानः सो ओमजाग्रविरव्योपारे परिप्रियः त्वम् विप्रो अभवोऽगिरस्तमोमध्धायज्ञम् विमिक्षणः सोमो मेद्भान्पवते गातुमित्तमनुषिर्मिप्रो विदक्षणः त्वम् कविरभवो देववीतमहासूर्यम् रोहयो दिवि सोम पुषुबाणः सोतृभिरसिष्णुभिरमेनाम् अश्वजेव रूपे गोमाङ्गोभिरक्षाः सोमो दुग्धाभिरक्षाः समुद्रन्न संवरणान्यन्मन्दे मदायतोषते आसो ओमसु भानो अद्रिभिः स्थितिरो वारा अण्यं व्यजाः जनो न पुरिचम्बो अर्विशद्धरिः सदो वनेषु तिरो अण्वा अनुमाद्यः पवमानो मदेशिभिः सोमो विप्रेभिरभिः प्रसो ओम देववे एतदेशिन्धुर्न विद्ये अर्णसा अंशोः पयसा मधिरो न जागृविरच्छाकोशम् मधुश्च्युतम् आहर्यतो अर्जुने अत्के ए अव्यतप्रियः सो दुर्नमज्याः तमेन्वम् चपसो अभिसो सोमास आजवः पवन्ते मद्यम् मदम् समुद्रस्याधिविष्टपि मनीषिणो मत्सरास स्वर्विदाः तरत्समुद्रम् अवमान ऊर्मिणा राजा आदेव ऋतम् रहत् अर्षन्मित्रस्य वरुणस्य धर्मणा प्रहिन्वानरतम् रहत् बृहिरे भानोहर्यतो वि राजा आदेवः इन्द्रायपवते मतः सोमो मरुत्वते सुतः सहस्रसारो अत्यव्यमर्षति तमीमृजन्जवाः पुराणश्च वो जनयन्मतीम् कपिः सोमो देवेषु रण्यतिम् अपोपसाः नः परिगोभिरुत्तरस्यैरन्मनेष्वव्यवाहंसोमराण्य इन्द्रो दिवे दिवे पुरोणि बभ्रोणि चलन्ति उदाहन्नक्तमुतसो ओम ते दिवाः सख्याय बभ्रऊहरि घृणातमम् दमति सूर्यम् वरश्च पुना इव भक्तिम मृज्यमानः सुहस्य समुद्रे वातमिन्वसि निषङ्गम् बहुलम् पुरस्पृहम् पवमानाभ्यर्षसि जानो वारे पवमानोऽ पवस्ववाच सातदे विश्वा आदिकाव्याः त्वम् समुद्रम् प्रथमो विधारो देवेभ्यः सोम मत्सरः सतोपवस्तपरिपार्थिवं रजो दिव्या च सोमधर्मभिः ताम् विप्रा आ सोमतिरविलक्षणशुभ्रम् हिन्वन्ति धीतिभिः पवमाना अस्रक्षत पवित्रमतिधारया मरुत्वन्तो मत्सरा इन्द्रियाः या आपेषामभिप्रया अंसि च अपोपसा आनः परिकोशमर्षतेन्दुर्हि यानः सोतृभिः जनयञ्ज्योतिर्मन्दनाहमेव सद्गाकृदो न निर्णितम् पवस्वमधुमत्तमहिन्द्रायसो मक्रुवित्तमोमदाः महिद्युक्षतमोमदाः यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता सर्वदाः स्वप्रगेतो अभ्यक्रमेदिषोच्छावाजन्नैतशः पुरं ह्या अङ्गदैव्यापोमानजनिमानिद्युमत्तमः अमृतप्रायर्घोषयाः ये नानवग्भ्वोदभ्यङ्गपोर्नुते ना येनभिप्रा ना आस आपिरे देवानाम् सुम्ने अमृतस्य चारुरोजे नश्रवाहम् एषस्य धारया सुतो व्योपारे एभ्यक्पवते मदिन्तमः क्रीडन् दोर्भिरपामिह य पु श्रिया अप्या अन्तरश्म नो निर्गा अकृन्ततो च सा अभिवृजन् मर्मे धृष्णवारुज आसो तापरिषिञ्चता श्मन्नस्त्वमक्तुरम् रजस्तुरम् परक्रक्षमुदप्तम् सहस्रधारम् वृषभम् पयोवृथम् प्रियम् देवाय जन्मने कृते नयदातो विवार्थे राजा देवरतम् रृहत् अभिद्युम्नम् रृहद्यशविषस्पदे विकोशम् मध्यमञ युव आवच्यस्व सुदक्षम्भो सुतो विशाम् वह्निर्नविष्पतेः वृष्टिम् दिवः पवस्वरीतिमपाञ्जिन् रागविष्टयेधिजाः एतमुद्यम् अदच्युतम् सहस्रधारम् वृषभम् दिवो दुः विश्वावसो निबिभ्रदम् दृषाभिजज्ञे जलयन्नमत्यः प्रतपञ्च्योतिषातमाः स सुष्ठुतः कविभिर्निर्णियम् दधे त्रिधात्पस्य ससा स्वसु वेयो वसूनाय्यो रायामाह सोमो यः सुक्षितीनाम् यस्य न इन्द्रिपाद्यस्य मरुतो यस्य भार्यमणाभगाः आयेन मित्रा वरुडाकरा आमह एन्द्रमवसे महे इन्द्रा पवस्वमधुमत्तमः इन्द्रस्य हार्दिसोमविष समुद्रमिव सिन्धवः जुष्टो ओभित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः परिप्रधन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय इन्द्रस्ते सोम सुतस्य पेजास्तत्वे दक्षाय विश्वे ये च देवाः मृता आय महेक्षया आयस शुक्रो अर्ष दिव्यः पीजोषाः पवस्व सोम महान् समुद्रः पिता देवानाम् विश्वाभिधाम शुक्रः पवस्त्व ब्रभर्ये मानो जज्ञानः पूतः क्षरद्विश्वा आदिमन्द्रः सर्वन्दुः पुनानः प्रजामुराणः क्षरद्विश्वा आनिद्रविणानिनः पवस्पसोमत्वे दक्षाया श्पोनरिक्तोपालीधनाय तन्ते ए सोतारोरसंवदाय पुनन्ति सोमम् महेद्युम्नाय शिशुञ्जानम् हरिम् व्रजन्ति पवित्रे सोमम् देवेभ्य इन्दुम् इन्दुः पविष्टता रुन्मदा आयापामुपस्थे हे कविर्भगा आया विभर्तितार्विन्द्रस्य नामजेन विश्वा आ निवृत्रा जघाना पिबन्त्यस्य विश्वे हे देवासो गोभिः श्रीतस्य नभिः श्रुतस्य प्रसुवानो अक्षासहस्रधार स्थिरः पवित्रम् विवा नम्यम् स सो ओम याहेन्द्रस्य पुक्षालभिर्ये भानो अद्रिभिः सुतः असज्जिभाजीतिरः पवित्रमिन्द्रा आयसोमः सहस्रधारः अञ्जन्त्ये एनं आय देवेभ्यस्पावृथापायसेपोपसा आनम् हरिम् व्रजन्ति इन्दुरिन्द्रा आयतोषते रितो ओषते श्रीणन्नुग्रोऋणन् पर्योषुप्रथम् ववाच सातये परिवृत्राणि सक्षरीः द्विषस्तरध्यार्णजानीयसे अनुहित्ता आसुतम् सो ओ ममतामसि महे समर्यराज्ये वाजाम् अभिपवमानप्रगाहसे अजि एजनो हि पवमानसूर्यम् विधारे शक्मनापजाः गोजे एरजारम्भमाणः पुरम् अरे जनोऽमृतवर्त्येष्वामृतस्य धर्मन्नमृतस्य चारुणः सदा सरोवाजवच्छासनिष्यतत् अभ्यभेश्ववसा तदर्थितोसन्नकम् चिज्जनपानमक्षिरम् शर्याभिन्नभरमाणोकभस्त्योः आदे केचित्पश्यमाना स आप्यम् वसुर्यो दिव्या ेषो ओमप्रथमा वृत्तवर्षो महेवाजा आदिश्रवसेधियम् ददुः सत्पन्नो आवीरवीर्यायचोदया दिवः पीजोषम् भूर्यञ्य दुःखम् महो गाहादिव आनिलदुक्षत इन्द्रमभिजायमानम् समस्परम् अथयति मे भवमानरोदसीतिमा च विश्वा यूथेन निष्ठामिषभो वितिष्ठसे सोमः पुनानो अव्ययेव रेशिशूर्नः क्रीडन् पवमानो अक्षाः सहस्रधारः शतवाजहिन्दूः एष पुनानो मधुमान् रामेन्द्राजेन्दुः पवते स्वादुरूर्मिः निर्वरि गो विद्वजोधाः सपवस्पसह माम्से संरक्षां शपदुर्ग्रहाणि स्वायुधः सा आसह्वान्सो ओपशत्रून् अया रुचा हरण्या पुरानो विश्वाद्वेषाम् विरति स्वयुग्मभिः रोचते पुनानो अरुषो हरिः विश्वायद्रूपापर्यात्यर्पभिः सप्तास्येभिरक्मभिः त्वम् यत्पटीनाम् वितोपसुषम् अरावतो ीतयाः त्रिधातुभिररुषेभियोरमादोयो पूर्वामनुप्रतिशीयाति चेकिरत्सं रश्मिभिर्यतते दर्शको रथोदीप्यो दर्शको रथा अग्मन्मुक्थानिपोंस्येन्द्रञ्जयित्रायहषयन् वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता उ नोधि योऽभिनाम् तक्षा आरिष्टम् मृतम् भिषग् ब्रह्मा सुन्वन्तमिच्छतेन्द्रा आयेन्दोपरि स्रव चरदेभिरोषधेभिः पर्णेभिश्च कुनानाम् कार्मारो अश्मभिर्दुभिर्हिरण्यवन्तमिच्छतेन्द्रा आयेन्दोपरिस्रव कारुरहन्ततो भिषगुबलप्रक्षिणे एनना नाना आधियोसूयवो दुगा इव तस्थिरेन्द्रा आयेन्दोपरिस्रव अश्व वोल्ढाः सुखम् रथम् हसनामुपमन्त्रिणः शेपोरो मण्डौ भेदौ वारिन् मण्डो ग इच्छतीन्द्रा आयेन्दोपरिस्रव शर्यणावर्धिषो ममिन्द्रः पिबतु रद्रः वरन्दधा न आत्मनि करिष्यन् वीर्यम् महदिन्द्रा आयेन्दोपरिस्रव आपवस्पदिशाम्बत आर्जीकाच्छो महेष्ठः कृतभागेन सत्येन श्रद्धजातप्रशात इन्द्रा आयेन्दोपरिस्रव पर्जन्यवृद्धम् महिषन्तम् सौर्यस्य दुहिता भरत तङ्गम् सर्वाः प्रत्यगृह्नन्तम् सोमेर समादधुरिन्द्रा आयेन्दोपरिस्रव ऋतम् वदन् नृतद्युम्न सत्यम् वदन् सत्यकर्मन्न श्रद्धाम् वदन् सोमराजन् धात्रासो ओपरिष्कृत इन्द्रा आयेन्द्रो परिस्रव सत्यमुग्रस्य बृहतः संश्रमन्ति संश्रवाः सञ्जन्ति रसिनो रसाः पुनादो ब्रह्मणा हर इन्द्रा आयेन्द्रोपरिस्रव यत्र ब्रह्मा पवमानछन्दस्याम्बाचम्बन् रावणा सोमे ए महीयते सोमे एनानन्दम् जनयन्निन्द्रा आयेन्दोपरिस्रव यत्र ज्योतिरजस्रञ यस्मिल्लोके स्वर्हृतम् अस्मिन् मान्दे पवमानामृते लोके अक्षित इन्द्रा आयेन्दोपरिस्रव यत्र राजा आ वैवस्पतो यत्रा आवरोधनन्दिवः यत्रामोर्यह्वदे नापस्तत्र मामवृतम् गृहेन्द्रा आयेन्दोपरिस्रव यत्रा आनुकामन्तरणन्त्रि नाके त्रिदिवे दिवः लोका यत्र ज्योतिष्पन्तस्तत्र मामवृतम् गृहेन्द्रा आयेन्दोपरिस्रव यत्र कामानि कामाश्च यत्र ब्रद्धस्य विष्टमम् स्वधा तृप्तिश्च तत्र मामभृतम् गृधेन्द्रा यत्रा आनन्दाश्च मोदाश्चमुदः प्रमुदा आसते कामस्य यत्राः कामास्तत्र वाममृतम् कृतेन्द्रा आयेन्दोपरिस्रव य इन्दोः पवमानस्यानुधामान्यक्रमेत तमा आहुः सुप्रदा इति यस्ते ए सोमाभिधन्मन इन्द्रा ोमन्नमस्य राजा अनयो यज्ञे भीरुधाम् पतिरिन्द्रायेन्द्रोपरि स्रव सप्तति नाना सूर्याः सप्त होता ररुत्विजाः देवा आदित्या ये सप्त तेभिः सोमाभिरक्षण इन्द्रायेन्दोपरि स्रव यत्ते ए राजन्श्रुतम् हविस्तेन सोमाभिरक्षणः अरादेवामानस्तारेन्मोचनः किञ्च नाम मदिन्द्रा आयेन्दोपरिस्रव यत्र तत्परमम् पदम् विष्णोर्लोके महीयरे देवैः सुकृतकर्मभिस्तत्र माममृतम् कृतेन्द्रा आयेन्दोपरिस्रव यत्तदत्परमायम् भूतानामधिपतिम् भावभावी च योगेश्च तत्र माममृतम् कृतेन्द्रा आयेन्दोपरि स्रव यत्र लोकारमूर्त्यजः श्रद्धयातवसाधिताः तेजश्च यत्र ब्रह्म च तत्र वाममृतम् कृधीन्द्रा आयेन्दोपरिस्रव यत्र ब्रह्मा च यत्र विष्णुश्च तत्र वाममृतम् कृधीन्द्रा आयेन्दोपरिस्रव यत्र गङ्गा च यमुना च यत्र प्राची सरस्वती यत्र सोमेश्वरो देवस्तत्र वामृतम् कृधीन्द्रा आयेन्दोपरिस्रव यत्र तद्विष्टुर्महीयते नराणामधिपतिम् यत्र शङ्खचर्क्रगदाधरस्मरणम् मुक्तिश्च तत्र वाममृतम् कृधीन्द्रा आयेन्दोपरिस्रव अग्रे बृहन्नुससामूर्धोऽस्थात् विश्वेश्वरविरूपाक्षविश्वरूप सदाशिव शरणम् भवभूतेश करुणाकर शङ्कर हर शम्भो महादेव विश्वेशामरवल्लभा शिवशङ्कर सर्वात्मन्लीलकण्ठ नमोऽस्तु ते मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे अमृतेशाय शर्वाय महादेवाय ते नमः उग्रायोग्रागनाशाय भीमाय भयहारिणे ईशानाय नमस्तुभ्यम् पशूनाम् पतये नमः दश सप्तदनामानि मण्डलान्तेषु यः पठेत् स शिवस्य शिवलोके महीयते नास्ति मृत्युभयम् तस्य पापलोगादि किञ्चन यज्ञेशाच्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णो हृषीकेशवासुदेव नमोऽस्तुते कृष्णाय गोपिनाथाय चक्रिणे पुरवैरिणे रुक्मिणीशाय गोपाय गोविन्दाय नमो नमः साक्षान्मूलप्रमाणाय विष्णोरमिततेजसे आद्याय सर्ववेदानाम् ऋग्वेदाय नमो नमः हरिहर शिवशङ्कर वामनवासुदेव विरामस्तावद्विश्वेश्वराय नमः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओम अग्रे बृहन्नुषसा ज्योतिशागात् अग्न्यर्भानुराषतास्वङ्गा जातो विश्वासत्मान्यप्राः स जातो गर्भो ओसिरोदस्योरग्र्विभृत ओषधेषु चित्रशिशुः परितमांस्य मातृभ्यो अधिकनिकृतद्ग्राः विष्णुरित्थापरममस्य विद्वाञ्जातो बृहन्नभिपाति तृतीयम् आसायरस्य पयो सते एतसो अभ्यर्थम् चत्रा अत उत्पापितुभृतो चरित्रेरन्नावृतम् प्रतिजलम् जन्नैः वृत्येशि पुनरञ्जलोपा असिक्तम् विक्षुमानुषेषु होता होतारञ्चित्ररसमद्धरस्य जग्दस्य जग्दस्य चेतुम् ऋषन्तम् प्रत्यर्जिम् देवस्य देवस्य मन्ना श्रियात्मा अग्निमलिशिञ्जनानाम् स तु वस्त्राण्यतपेशना निवसा आ नो अग्निर्नाभा आपृथिव्याः अरुषो जातः पदय आयाः पुरोहितो राजन्यक्षेह देवान् आहिद्यावा आपृथिवे अग्न उभे सदा आपुत्रो न मातरा आतरन्था प्रयाश्चच्छोषतोजभिष्ठा धावह सह स्येह देवान् विप्रीः देवाङ्कुशतोजविष्ठविद्वाङ्कृतोपरे येह ते दैव्या आवृत्तिजस्तेभिरग्नेतम् भोत्रॄणामस्याजिष्ठः वेषिहोत्र मृगपोत्रञ्जनानाम् बन्धातासिद्रपिणोदाकृता वा स्वाहा आ भयम् कृणवा आमाहवींषि देवो देवान्यजत्वरर्हन् आ देवानामपिबन्था आमगन्मयच्छक्नवा आमत सुप्रवो ओुम् अग्निर्विद्वान्स यदात्से दुहोतासो अद्धरान् स ऋतोन् कल्पयाति यद्वो अभयम् प्रमिनामौ लतानि विदुषा देवा, देव। देवा अविदुष्टरा अग्निष्टद्विश्वमा वृणाति विद्वान्येभिर्देवातुभिः कल्पयाति यत्ता आकर्त्रा मनसादेन दक्षा न यज्ञस्य मन्वते आसः अग्निष्टद्धोता अक्रतुविद्विजानन्यष्ठो देवाङ् ऋतुषो जजाति विश्वे येषाम् आ यजस्व ध्रुवतेरनुक्षास्पार्हा इषाः क्षमरेर्विश्वजन्याः यन्ताद्यावा आपृथिवेयन्तापस्पष्टा यन्ता आसुजनिमाजजाना पन्था मनुप्रविद्वान्पि त्रयाणम् युवदग्ने समिधानो विभा आहि इनोरा आजन्न रतिः समिद्धो रौद्रो दक्षा आयसु सुमान् चिकिद्विभाति भासा बृहता चिने मे तिक्षते मपाजन् कृष्णाञ्जेने साभोज्जनयम् योषा अमृहतः पितुर्जा ऊर्ध्वम् भानुम् सौर्यस्यस्तभायम् दिवो वसुभिरतिर्विभा आदि भद्रो भद्रया स च अभ्ये एति सुप्रकेतैर्त्युभिरग्निर्वितिष्ठन्निषद्भिर्वर्णैरभिरामवस्थात् अस्य यामासो बृहतो न भग्नो निन्धाना अग्ने सक्षुः शिवस्य एज्यस्य वृष्णो बृहत श्वासो यामासो यामन् नक्तवश्चित्रे स्वनादयस्य भावासत्पवन्ते लोचमानस्य बृहतः सुः ज्येष्ठेभिर्यस्तेजिष्ठै श्रीणुवद्भिर्वणिष्ठेभिर्भानुभिर्नक्षतिर्या अस्य सुष्मासोदृशानपरेर्जेहमानस्य स्मनयम् नियुद्भिः पत्नेभिर्योषद्भिर्देवतमोभिरेभद्भिरतिर्भातिभा स आवक्षिमहि न आचत्सि निवः पृथिव्यो रतिर्युवत्योः अग्निः सुतुकः सुतुके एभिरश्वैरभः स्वे नः स्वामेहगम्याः प्रते यक्षिप्रत इयर्मिमन् न भुवो यन् ओ भूतो देवानामसिमत्यानामन्तर्महांश्चरसि लोचनेन शिशुन्नत्पादेन्यम् वर्धयन्ति मातापि भर्तिसृजनस्य माना धनोरधिप्रवता आयासि हर्यजिके एषसे पशुरिपापसृष्टः मोरा अमोरणमयम् जिकित्वो महित्वमग्ने त्वमङ्गवित्से शये एभ्रिश्चरसि विह्वयान्ध्रे एरिह्यते ए क्वचिज्जायते सनयासुनम् यौवने एतस्थोपलितो धूमके एतुः अस्नातापो अवृषभो न प्रवे एति स चे एतसोऽयम् प्रणयन् नमर्ता आह नोत्यजे एवस्करामनर्गोरशनाभिर्दशभिरभ्यथिताम् यन्ते ए अग्ने नव्यसेवनीषा युक्ष्वारसन्नशुतयद्ध्यरङ्गैः ब्रह्म च ते जातवेदो नमश्चेयम् चगीस्सदमिद्वर्ध्वीभूत् रक्षाणो अग्नेतन यानि लोकारक्षोतनस्तन्भो अप्रयुच्छन् एक्रो धरुणो रजीनामस्मत् हृतो भूरिजन्मापि चे त्रिभक्त्यो धरुणिन्योनुपस्थौत्सस्य मध्ये निहितम् पदम्वेः समानन्मीलम् ऋषडोकसानाः सञ्जग् महिषा अल्पदेभिः ऋतस्य पतङ्कपयो निपान्ति गुहानामानि सन्दधाते वित्पाशिषुञ्जज्ञतुर्वर्धयन्ते विश्वस्य न भिञ्जरतो ध्रुवस्य कपेश्चित्तम् तुम् मनसा मियन्ताः ऋतस्य हि वर्तनयः सुरा आतमिषोमाजाय प्रतिपत्सन्ते अतीवासं रोदसे वावसाने घृतैरन्न देवधूनाम् सप्तस्वश्रोरुणेर्वामशानो विद्वान्मद्धपुज्यभारादृषेकम् अन्तर्ये एमे अन्तरिक्षे पुराजा इच्छन् मौरिमविरत्पूषणस्य सप्त मर्यादा अः कवयस्ततच्छुस्तासा मे कामिदभ्यम् रुरोगात् आयोरः स्कम्भ उपमस्य लीले पथाम् विसर्गे तरुणे एषु तस्थौ असच्चसच्च परमेव्यो मन्दक्षस्य जन्मन्नदितेरुपस्थे अग्निर्हरः प्रथमजातस्य पूर्व आजुनिवृढश्च धेनुः इति सप्तमाष्टके पञ्चमोऽध्यायः